आयामो तबला जोमयी नैश्वकी गापाङ्गविलोकिकी भ ीमुखिनी वाल्या मृतवर्षिणीं सुमधुरं मधुरङ्गीर्तनालापिनी शामाङ्गी मधुसिक् तदुत्तरी ॐ अमृतेश्वरेश्व गणानाम् त्वा गणपतिकम् हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणपतमानश्रुबन्धो दिवृदारदनम् ॐ श्रीमहागणपतये नमः वाजे अपटु वी स्ट लास्ट् टैगेद वी स्टा विथ ओम् कर् बिटिल् पाहि पाहि भद्रं कर्णेयामदेवाः भद्रं पै माक्षभिर्यजत्राः ैरङ्गै सुष्ठवांसस्तनूभिः ये मध्ये महि स्वस्ति न इन्द्रो वृद्धश्रवा स्वस्ति न पूषा वेदास्ति नो हरिष्टमिः स्वस्ति नमस्ते ॐाचिष्टौ नमस्ते गणपतये स्वमेव प्रत्यक्षं समति त्वमेव केवलं कक्षाति स्वमेव केवलं कर्णाति मेवमेव त्वमेव सर्वं कल्पितं साक्षात् नित्यं वृतं वच्मे अवदाताम् अवधाता अवानुचानमवशिष्यम् अवपश्चा अवा अव पुरस्पुर ते अवोतराता आदे अव दक्षिणाता आसे अवचोर्दोर्वाते अवधराता आसे सर्वतो मां पाहि पाहि So, who wants to try it on their own? We did this in the last class also, so it will be easier this time. Mm, the whole thing or first paragraph? Fourth thing? You did it that way? Right? Yes, I can go. ॐ भद्रम् कर्णेभिशृणुयाम देवाः भद्रम् पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागम् सस्तनूभिः व्यषेमदेवहितम् यदायुः स्वस्तिन न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्तिः ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षम् तत्त्वमसि त्वमेव केवलम् कर्तासि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 अवदातारम् ऊ अवधातारम् अवानुचानमवशिष्यम् अवपश्चाता अवा आत् अव पुरस्तात् आत, अवोत्तराता आत् अवदक्षिणाता आत् अवचोर्ध्वाता आत् अवाद्धराता आत् सर्वतो माम् समन्तात्。हर्ता अस्ति धर्ता अस्ति ओके त्वमेव केवलं धर्तासिन् लिटिल् फास्ट् वेरि नैस्ट् कर्णे विशृणि शृणुयाम देवाः भद्रम् पश्ये मारभिर्यजत्राः स्थिरैरङ्गैः सुष्टुवास्तनूः स्थिरैरङ्गैः सुष्टुवागुं सस्तनूभिः स्थिरैरङ्गैः सुष्टुवागुं सस्तु सस्तनूभिः यक्षेमदेवहितं यदायु स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति न पूषा विश्विषा स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नः साक्ष्यो अरिष्मनेभिः स्वस्ति नो ॐ शान्ति शान्ति शान्तिः ॐ नमस्ते गणपतये स्वमेव प्रत्यक्षम् तत्त्वमसि त्वमेव केवलम् कर्तासि त्वमेव केवलम् धत्तासि त्वमेव केवलम् भर्तासि त्वमेव सर्वम् कल्विधम् ब्रह्मासि त्वम् साक्षादात्मासि नित्यम् कृतम् वच्मि सत्यम् वच्मि अव त्वम् अववक्तारम् अवश्रोतारम् अवधातारम् अवधातारम् अवानूचानमवशिष्यम् अवा अवपश्चात्ता आत् अवपुरस्ता अवो आत् अवोत्तराथा सर्वतो पाहि पाहि ॐ भद्रं कर्णेभिशृणुयाम देवाः भद्रं पश्य ेमा क्षभि भद्रं पश्येम क्षभिर्यज रजस्रः भद्रं पश्येमा भद्रं पश्येम क्षभिर्यजस्त्रा भद्रं पश्येमा क्षभि त्यजस्रः क्षुजैभिर् क्षभिर्क्षभिर्यजत्राम्प्येमाक्षफल्राम्प्ये माक्ष माक्षफल्व्रजस्रः साः पश्येमा भद्रं पश्ये मा भद्रं पश्येमाभिर्षिरै स्थिर्फलत्राः स्थिरैरङ्गे स्तुष्टु वास्तनोभिः वश्य व्यसेमदेवहितं यदा युः स्वस्ति न इन्द्रो वृद्धस्वाः स्वस्ति न स्ताक्षु अरिष्टनेमिः स्वस्ति न पूषा विश्वदेवाः स्वस्ति न स्वस्ति न स्वस्ति नृश्रवास्ति दैट् देदाः विश्वः ओके िन पूषा विश्वदे वेदाः सुस्ति न साक्ष्यो अरिष्टनेमिः सुस्ति नो बृहस्पति दधातु ॐ शान्ति शान्ति शान्तिः ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षं त्वमेव केवलं कर्तासि त्वमेव केवलं धत्तासि त्वमेव केवलं भक्तासि त्वमेव सर्वं खल्विदं ब्रह्मासि त्वं साक्षादात्मासि नित्यं कृतं वच्मि सत्यं वच्मि अवत्व माम अववक्तारम् अवश्रोतारम् अवदातारम् अवधातारम् अवानुजानमव शिष्यम् अव पश्चात्ता आद नव पुरस्ता आद अवोत्तरात्ता आद अव दक्षिणाता आद अवचोधातादरा अवाथराता आदे सर्वतो मां पाही पाही समंतादे Good. I think you didn't have a problem in the second half, only the first half, right? Yeah, first, first part I'm having a hard time. Okay. Shraji, okay. you want to try? Okay, I'll try. Okay. Om Padram Karnevi शृणुयामदेवाम् भद्रम् पश्ये मा चिरब्ज्यता स्थिर भद्रम् पश्येमा चिब् स्थिरैरङ्गै सन्तुष्टुवागम् केन् यु सी वन्स्मोर् ऐ लुकिङ्ग् एक स्तुरैरङ्गै सष्टुवागम् ङ्गै स्तुष्टुवागुम् व्यशे मदे वहिदम् सदायुः स्वस्ति न इन्द्रो वृद्धवा स्वस्ति नूषाय विश्ववेदाम् स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति न पूषाय विश्वदेवाः देवाः देवाः विश्ववेदाः स्वस्तिनस्तार्श्योष्टः स्वस्तिनो बृहस्पति बृहस्पति ददातु ॐ शान्ति शान्ति शान्तिः ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षं तत्त्वमसि त्वमेव केवलं कर्तासि त्वमेव केवलं दर्तासि त्वमेव केवलं हर्तासि त्वमेव स्वरं गलितं ब्रह्मासि त्वम् साक्षादात्मासि नित्यम् कृतं वच्मि सत्यं वच्मि म् अववक्तारम् अवस्रोतारम् अवदातारम् अवदातारम् अवानुचानमशिष्यम् अवपश्चाताद् अवपुरस्ताद् अवोत्तराताद् अवदक्षिणाताद् अवचोद्धाताद् अवधारात्वाद् अवार अवाधरा दीर्घादय अवाधराता द स्वर तो माही पाही, पाही समंता पा सम पाहींमता पाही So, you, you, people are having a problem with the first paragraph itself? Should we do that again? Yeah. yeah. Okay, one, jee, guys, twice, okay, okay? Okay. I'll say once repeat twice, Om Om Bhadram karne yama Om Bhadram Karne yama Om bhadram Karne ृणुयामदेवाद्रं कर्णेभिमदेवा शृणुयाम देवा भद्रम् पश्ये माक्षभिर्यजत्राः भद्रम् पश्ये मा क्षभिर्य पश्यजत्राः ैरङ्गैस्तुष्टवागम् सस्तनूभिः तु व्यक्षेमदेवहिधम् यधायुः दयायुः यदायुवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नस्तार्क्ष्यो अरिष्टनीमिः स्वस्ति स्वस्ति न साक्ष्यो अरिष्ट स्वस्ति अरिष्टमिहि स्वस्ति नो बृहस्पतिर्दधातु स्वस्ति स्वस्ति नो बृहस्ति दधातु स्वस्ति Who wants to try it it on their own now? We practice one more time. So let's get ॐ भद्रम् कर्णेभिष्णुजामदेवाः भद्रम् पश्ये माक्षभिर्लजस्राः स्त्रिलैरङ्गैः सुष्टु वागुं सहस्रदूभिः क्षेमदेवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नेशा विश्ववेदाः स्वस्ति न सार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ृणुयामदेवाःस्त्राः स्थिरैरन्दे सुष्टुवागुंसस्तनूः वश व्यसेमदेवहितं यदायुः स्वस्ति न इन्द्रो वृत् स्वस्ति नोषा विश्ववेदाः द्रम् कर्णेभि सृणयामदेवा भद्रम् पश्येमाक्षभिर्यजात्रारैरङ्गैस्तुवागुम् स्तिनोभिम् स्तिरङ्गै सुष्टुवागुं स्वस्ति स्वस्ति व्यचेमदेवहितं यदाहुं स्वस्ति सदायुः स्वस्ति न इन्द्रो वृद्धश्रवा स्वस्ति न पूषा विश्ववेदा स्वस्ति नरिष्टः स्वस्तिनो बृहस्पतिर् ददातु Mm -hmm. ओम् भद्रम् कर्णेभिशृणुयाम देवाः भद्रम् पश्येमाख्यभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागम् स्वस्तनूभिः व्यषेमदेवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः Good. Okay. Okay. Everybody comfortable with that? Comfortable with that? Yeah. Oh. Yes. Okay. So let's start the the fourth one because we finished with the third one. because finished third I'll say once you स्वस्तिनः पूषा विश्ववेदास्ति मयस्त्वं ब्रह्ममयः <těji> त्वं प्रत्यक्षं ब्रह्मासि त्वं प्रत्यक्षं ब्रह्मासि kamak okay, ketam brammaasi konnanamayo vijnanamayo si konnanamayo vijnanamayo si ke so let's try this together once okay ready okay 1 2 3 यस्त्वं त्वं मयः त्वमानन्दमय स्वयं चिदानन्दासि त्वं प्रत्यक्षं प्रथमं ब्रह्मासि त्वं ज्ञानमयो वियोषि Is that okay? Should we do it one more time? Yeah. Okay, let's do it one more time. Okay, ready? One, two, three. Swam Vang Maya Swam Jit Mahayaha O Manantamaya Swam Paramahayaha Swam Satchi Dhanantam Swam Satchi Dhanantam Swam Satchi Dhanantam Swam Satchi Dhanantam vam tvam namaya namayosi who wants to try it on their own i can do okay vam maya sam timayaha tvam anandamayasam brammayaha kam satchidanam dva ते यल्ला से तुम प्रत्यक्षं ब्रह्मासि त्वं ज्ञानमयो विज्ञानमयसि गुड सर सच्चिदानंदा द्वितीयो जीव सच्चिदानंदा इजी सच्चिदानंदा इजी सच्चिदानंदा द्वितीयो ऋषि करेक्ट ओके थैंक यू टू इज टू ट्राई नेक्स्ट ऐ विल् गो त्वं वाचिदानं दाद्वितीयोऽसि त्वं प्रत्यक्षं ब्रह्मासि त्वम् त्वम् वाङ्मयस्त्वम् चिन्मयः त्वमानन्दमयस्त्वम् ब्रह्ममयः त्वम् सच्चिदानन्दाद्वितीयोऽसि त्वम् प्रत्यक्षम् ब्रह्मासि नन्दमय स्वम् ब्रह्ममयः त्वं सच्चिदानन्दाद्वितीयोऽसि त्वं प्रत्यक्षम् ब्रह्मासि त्वं ज्ञानमयो विज्ञानमयोऽसि सर्वं जगदिदं त्वत् सर्वं तिष्ठति सर्वं जगदिदं त्व सर्वं जगदिदम् त्वस्तिष्ठतिदम् सर्वं जगदिदम् त्वयिलयमेष्यति सर्वं जगदिदं त्वयि प्रत्य सर्वं जगदिदं त्वयि प्रत्येति गदिदम् त्वयि प्रतिरापो त्वं भूमिरावो नलो निलोर्णभः त्वं भूमिरापो नलो निलो न पो नलो निलो नभः त्वं त्वारि वा आप् चत्वारि वा आप्तानि लेट् अस् डु दिस् ट्वुगेदर् इण्डिविजले दिस् पाग्राफ् वन् टु त्री सर्वं जगदिदं त्वं जगदिष्यति सर्वं जगदि हरि आ पदानि वन् टु थ्री सर्वं जगदिगदिदं त्वत्तो जायते सर्वं जगदिदं त्वत्किष्टि सर्वं जगतिदं जगतिविघं कैलयतिष्यते सर्वं जगतिदं गुणितं कैत्येति स्वं भूमिरापो ननुनिलो नपह स्वं चात्स्वं तत हरीवास्पदानि ओके यू वांट टू कंटिन्यू द ऑन सर्वं जगदिनं त्वत्सो जायते सर्वं जगदिदं त्वत्सतिष्ठति सर्वं जगदिनं त्वयि न सर्वं जगदिनं त्वयि प्रच्येति त्वं भूमिरामो न नो सर्वं जगदिदं त्वत्तो जायते स्तिष्ठति सर्वम् जगदिदम् त्वयि लयमेष्यति सर्वम् जगदिदम् त्वयि प्रत्येति त्वम् भूमिरापो नलो निलो नभः त्वम् सर्वं जगदिदम् सर्वं जगदिदं तत्त्वो जायते सर्वं जगदिदम् तत्त्वस्तिष्ठति सर्वं जगदिदं त्वयि लयमेष्यति सर्वं जगदिदम् त्वय् त्वयि प्रत्येति त्वम् पूर्विरापो नभः त्वं चत्वारि वा Okay, I'll go next. Okay. <speaking in foreign language> sarvam jagadidam tattvo jayate Sarvam jagadidam tattas tati shtati Tvattas <speaking in foreign language> tishtati vattas... Tvattas Jagadidam tattas tishtati ेष्यतिदं त्वयि प्रत्येति या त्वम् अवस्थात्रयातीतः त्वं कालत्रयातीतः स्तितोऽसि नित्यं मूलाधारं त्वं मूलाधारस्ति नित्यम् त्वं ोऽध्यायन्ति नित्यम् त्वां योगिनो ध्यायन्ति नित्यम् नित्यम् क्षुद्रस्त्वमिन्द्रस्त्वमग्नि वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वम् ayustham kuriyastham samasamastam bramma purbhuvasvaro bramha bhumna purbhuvasvaro bramma bhumna purbhuvasvaro so i'm going to share the whole sentence okay it's a long one so your hey, attention ्रह्मा त्वम् विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वम् वायुस्त्वम् सूर्यस्त्वम् चन्द्रमास्त्वम् ब्रह्मस्वरो chamendra samakni svantamantra masvam yamam bhurama swaro omam vam braho tam yamam matme shnitam tam mritsamam bin kamak kunvai svam suryatam samtra masvam yamam tam kunthola swaro okay so let's just do paragraph for two times okay and you can do individually ीरितः पीतः okay. <speaking in foreign language> युस्त्वं सूर्यस्त्वं चन्द्र वाम गुणत्रयातीतः स्वं अवसत्कायैतह स्वं त्रम्यहत्रयातीतः स्वं गुणत्रयातीतः स्वं कालत्रयातीतः वामूलातमडातः इतोस्मिन् टिप्प स्वं शाक्तेः कश्यतिप्रका नह Vamように vam yo lam yogino yam smiti nijam vam brahma manasya svasthasya svasthasya samasya iskam candra maasya dharma purva vatsyam so who wants to try this paragraph and thereon okay त्वं गुणत्रयातीतः त्वम् अवस्थात्रयातीतः त्वं देहत्रयातीतः त्वं कालत्रयातीतः त्वं मूलाधारितोऽस्ति नित्यम् त्वं शक्तित्रयात्मकः त्वां योगिनो ध्यायन्ति नित्यम् Svam Brahma, Svam Vishnu, Svam Rudra, Svam Indra, Svam Ajni, Svam Vayus, Svam Surya, Svam Chetrama, Svam Brahma, Bhūdhuva Swarom. Okay, who wants to try next? I can go. Okay. Okay, go ahead. Go ahead. then you should really go ahead sarvam jagaditam tattvo jayate sarvam jagaditam tattva no no we we already finished that right oh next next one kam gnatrayati dah tvam avastha trayati dah tvam deha trayati dah यातीतः त्वम् मूलाधारस्थितोऽसि नित्यम् त्वम् शक्तित्रयात्मकः त्वम् योगिनोऽध्यायम्सि नित्यम् त्वम् ब्रह्मास्त्वम् विष्णुस्त्वम् रुत्रस्त्वमिन्द्रस्तमग्निस्त्वम् वायुस्त्वम् सूर्यस्तम् ब्रह्म योगिनोगिनो ध्यायन्ति त्वं गुणत्रयातीतः त्वम् अवस्थात्रयातीतः त्वं देहत्रयातीतः त्वम् कालत्रयातीतः त्वम् मूलाधारस्थितोऽसि नित्यम् त्वं शक्तित्रयात्मकः त्वाम् योगिनोद्धायन्ति नित्यम् त्वम् ब्रह्मा विष्णुस्त्वम् रुद्रस्त्वम् इन्द्रस्त्वम् अग्निस्त्वम् वायुस्त्वम् सूर्यस्त्वम् चन्द्रमास्त्वम् ब्रह्मभूर्भुवस्वरोस्ट् त्वम् गुणत्रयातीतः त्वम् अवस्थात्रयातीतः त्वम् देहत्रयातीतः कालत्रयातीतः त्वम् मूलाधारस्थितोऽसि नित्यम् त्वम् शक्तित्रयात्मकः त्वाम् योगिनो ज्यायन्ति नित्यम् त्वम् ब्रह्मा त्वम् विष्णुस्तम् रुद्रस्थमिन्द्रस्तमग्निस्थम् वायुस्थम् सूर्यस्तम् चन्द्रमास्तम् प्रहभूर्भुवः सरोम् स्वरोम् ब्रह्म पूर्ववस्वरोम ब्रह्म पूर्ववस्वरोम सो शाल यू डू वन्स फ्रॉम द वेरी बिगनिंग टिल हियर टुगेदर वन्स जस्ट फ्रॉम द 18th मे बी ओके रेडी यस 1 2 3 भद्रणेभिष्णुयामदेवा भद्रम् भद्रेश्वभिर्यजत्राः तिरै शिरैरङ्गै सुस्तनोभिषनुः व्यशेभिः स्वस्ति न स्वस्ति स्वस्ति नेदाः स्वस्ति न स्वस्ति नोनि स्वस्ति स्वस्ति ॐ श्यामृतिः ॐ नमस्ते जनपदये स्वमेव स्वमेव केवलं स्वमेव केवलं वर्ताति स्वमेव केवलं वर्ताति त्वमेव धर्मम् फलविदं देवाहे त्वं साक्षात् कृतं वच्मि सत्यं वच्मे अवत्वम् अवभक्तारंकारम् अव अवस्थारम् अव अवधार अवधा अवानुजानमवशिष्यम् अव पश्चात् पश्चात् अव पुरस्व पुरस्पाद अवोचरा अवद अवधानो मां चात् त्वं वां नयः समानयः त्वं त्वं प्रत्यं त्वं ज्ञानमयोमानमयोहि सर्वं जगदिदं जगदेव चायदेयते सर्वं जगदिदं जगदिदम् सर्वं जगति सर्वं जगति त्वं भूमि भूमिपः त्वं चत्वारि त्वारि त्वं गुणत्रया त्वम् अवयाचीतः चायं नित्यम् Vroom Brahman Smritm asthma Sammления and Swami Vishnassam Bhapa Parangнаком Vroom allez oso Zmak 묻h misal vroom allez skies hurrah puh puh puh puh puh hor puh herramient everybody okay so far? yeah, yeah. okay good. so Maßnahmen lift way Sri Lanka Samastaha and stuff for today the next is to start with edi seventh paragraph okay thank ॐ लो लोकाः विशा